तमोये ये तमस्तमोय उसम्भो त्याग्रे सम्भोत्यामुयेतमस्तमोय उसम्भोत्या य उसम्भो त्याग्रे सम्भोत्यामुये यु सम्भोत्यागरतारतास्सम्भोत्यामुयेयुसम्भो त्याग रताः भूयत्यो सम्भोत्याग्र रता रताः सम्भोत्याग्रसम्भो त्याग रताः सम्भोत्यामिति सम् रता इति रताः अन्यदेवैवान्यदन्यदेवाहुराहुरेवन्यदन्यदेवाहुः एवाहुराहुरेवैवाहुः भवात्सम् भवादाहुरेवैवाहुःसम् भवाहुःसम् भवात्सम् भवा दाहुराहुःसम् भवादन्यदन्यत्सम् भवा दाहुराहुस्सम् भवादन्यते सम्भवादन्यदन्यत्सम् <Sanskritik> भवात्सम् आहुरसम्भवादसम् भवादाहुराहुरसम्भवात् असम्भवादित्यसम् भवात् इति शुश्रुमशुश्रुमेतीति शुश्रुमधीराणाम् धीराणा गशुष्णुमेतीति सुश्रुमधीराणा शुश्रुमधिराणां धीराना ग शुश्रुम शुश्रुमधिराणा ये ये धीराणा ग शुश्रुम शुश्रुमधिराणा ये धीरा ये ये नस्तत् नस्तत्तन्ना नस्तद्वि तन्ना नस्तद्वि तद्वि च चक्षिरे वि च चक्षिरे तत्तद्वि चक्षिरे विच चक्षिर इति वि च चक्षिरे सम्भो च च सम्भोदिग्भ्ये सम्भोतिम् च विनाशम् विनाशम् च सम्भो ऊतिभ्ये च विनाशम् विनाशम् च विनाशम् च विनाशम् च विनाशम् च विनाशम् च विनाशम् विनाशम् चयोयश्च विनाशम् विनाशम् च यः विनाशमिदेवि नाशम् चयोयश्च चयस्तत्तद्यश्च चयस्तत् यस्तत्तद्योयस्तद्वेदवेद तद्यो यस्तद्वेदा तद्वेदवेद तत्तद्वेदोभयमुभयम् वेद तत्तद्वेदोभयम् वेदोभयमुभयम् वेदवेदोभयाम् सहसहोभयम् वेदवेदोभयाम् सहा उभयाम् सहसहोभयमुभयाम् सः सहेति सः विनाशेन मृत्युम् मृत्युम् विनाशेन विनाशेन मृत्यन्तीत्वा तीर्त्वा मृत्युम् विनाशेन विनाशेन मृत्यन्तीर्त्वा विनाशेनेदीवि नाशेन मृत्यन्तीर्त्वातीर्त्वा मृत्युम् मृत्यन्तीर्त्वासम्भोत्यासम्भोत्यातीर्त्वा मृत्युम् मृत्यन्तीर्त्वासम्भोत्या ीर्त्वा सम्भो च्यासम्भो च्यातीर्त्वातीर्त्वा सम्भोच्च्यामृतमृतव्ये सम्भोतीर्त्वा तीर्त्वामृतमृतव्ये सम्भो च्यासम्भो चामृतमश्नुतेष्णुते अमृतभ्ये सम्भो च्यासम्भो च्यामृतमश्नुते सम्भूत्येति सम् भूत्या अमृतमश्नुतेश्नुते अमृतममृतमश्नुते अश्नुत इत्यश्नुते हिरण्मयेन पात्रे एण पात्रे एण हिरण्मये एन हिरण्मयेन पात्रे एण सत्यस्य सत्यस्य पात्रे एण हिरण्मये एन सत्यस्य पात्रे सत्यस्य सत्यस्य सत्यस्यापि हितमपि हितज्ञे सत्यस्य पात्रे एण सत्यस्यापि हितम् सत्यस्यापि हितमपि हितज्ञ सत्यस्य सत्यस्यापि हितम् मुखम् मुखमपि हितज्ञ सत्यस्य सत्यस्यापि हितम् मुखम् अपि हि तम् मुखमपि हितमपि हितम् मुखम् अपि हितमित्यपि हितम् मुखमिति मुखम् तत्त्वम् त्वम् तत्तत्त्वम् पोषन् पोषग्गस्त्वम् तत्तत्त्वम् पोषन् त्वम् पोषन् पोषग्गस्त्वम् त्वम् पोषन्न पापपोषस्त्वम् त्वम् पोषन्नपा पोषन्न पाप अपावृणवृण्वापापावृणसत्यधम् माय सत्यधम् माय वृण्वापापावृणसत्यधम् माया आवृण वृणसत्यधम् मायसत्यधम् मायवृणवृणसत्यधम् मायदृष्टये दृष्टये सत्यधम् मायवृणवृणसत्यधम् मायदृष्टये सत्यधर्म माय दृष्टये दृष्टये सत्यधर्माय सत्यधर्माय दृष्टये सत्यधर्म मायेति सत्याधर्म माय दृष्टय इति दृष्टये पूषन्ने कर्षये कर्षे पूषन् पूषन्ने करिषे यमयमै कर्षे पूषन् पूषन्ने ये कर्षेयमय मयिकर्ष ये करिषेयमसूर्यसूर्ययमयिकर्ष ये करिषेयमसूर्या हे कर्ष इत्येकादृषे यमसूर्यसूर्ययमयमसूर्यप्राजा आपत्य प्राजा आपत्यसूर्ययमयमसूर्यप्राजा आपत्या सूर्यप्रादापत्यप्रादापत्यसूर्यसूर्यप्रादापत्यविमिप्रादापत्यसूर्यसूर्यप्रादापत्यवि प्रादापत्यमिप्रादापत्यप्रादापत्यव्योहमिप्रादापत्यप्रादापत्यव्योः प्रादा पत्येति प्रादा पत्या व्योहिव्योह रश्मीन् रश्मिनो हविव्योह रश्मिह रश्मिश्मिनोहरश्मिन् सर्ग सर्ग रश्मिनोह रश्मिन् सम् रश्मीन् सर्ग सर्ग रश्म्यश्मिन् समोह सर्ग रश्म्यश्मिन् समोहा समोहोहसग् समोहते दस्ते ज ऊहसग्दे समोहते जहा ऊहते दस्ते ज ऊहोहते दो यद्यत्ते ज ऊहोहते दोयते ते दो यद्यत्ते दस्ते दोयत्ते एते यत्ते दस्ते दोयत्ते यत्ते एते यद्यत्ते एपज्ञे रूपम् ते यद्यत्ते ए ते रूपज्ञ रूपन्ते एते रूपम् कल्याणतमम् कल्याणतमग्र रूपन्ते एते रूपम् कल्याणतमम् रूपम् कल्याणतमङ्कल्याणतमग्र रूपग्र रूपम् कल्याणतमन्तस्तत्कल्याणतमग्र रूपज्ञ रूपम् कल्याणतमन्तति कल्याणतमन्थत् तत्कल्याणतमम् कल्याणतमम् तत्ते एते तत्कल्याणतमम् कल्याणतमम् तत्ते कल्याणतममिति पश्यामि पश्यामि ते तत्तत्ते पश्यामि ते पश्यामि पश्यामि ते ते पश्यामि पश्यामीति पश्यामि योसा असौ योऽसा बसा असा असौ योसा बसौ असा बस असा असा असा बसौ पुरुषः पुरुषो असा असा बसौ पुरुषः असौ पुरुषः पुरुषोसा असौ पुरुषः स स पुरुषोसा असौ पुरुष सः पुरुषः स स पुरुषः पुरुषः सोऽहमहग्ग्र पुरुषः पुरुषः सोऽहम् सोऽहमहग्ग स सोऽहमस्म्यस्म्यह सोऽहमस्मि अहमस्म्यस्म्यहमहमस्मि अस्मीत्यस्मि युरनिलमर्वायुरनिलम् अमृतम् अमृतमनिलम् वायुर्वायुरनिलम् अमृतम् अनिलम् अमृतम् अमृतमनिलम् अनिलम् अमृतमथामृतमनिलम अमृतमथा अमृतमथामृतम् अमृतमथेदमिदमथामृतम् अमृतमथेदम् अथेदमिदमथाथेदम्भस्मान्तम् भस्मान्तमिदमथाथेदम्भस्मान्तम् इदम् भस्मान्तम् भस्मान्तमिदमिदम् भस्माताम् शरीरग् शरीरम् भस्मान्तमिदमिदम् भस्माताम् शरीरम् भस्मान्ताम् शरीरग्ने शरीरम् भस्मान्तम् भस्मान्ताम् शरीरम् भस्मान्तमिति भस्म अन्तम् शरीरमिति शरीरम् ओ क्रतो क्रत asmrakrato om. om krato smara krato smarasmrakrato krato smara kritam kritag smrakrato krato smara kritam krato itikrato krita.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 क्रतो स्मर स्मर क्रतो क्रतो स्मर कृतम् कृतज्ञ इति क्रतो स्मर कृतम् कृतज्ञ स्मर स्मर स्मरेति स्मरा ग्नेन या सुपथा राये अस्मान् विश्वानि देव भयुनानि विद्वान् जुयोस्मज्जोः राणमेनो भूयिष्ठान्ते नम उक्तिम् विधेम वोर्णम दःपूर्णमिदम्पूर्णामाग्पूर्णमु गच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिश्शान्तिः